साहसम् में सहश्व विष्णुमीशम् प्राहुस्ते ते परमशिव ते मायया मोहितास्त्वाम् एतैः सार्धं सकलमपि यत् शक्तिदेशे समाकम् save your mind. अन्तः <tú> ह ह भक्त द्रोण प्रवृ साध पता में। किं करोतु संस्कृतिप्राप्तमादः चेतश्वासप्रशमसमये त्वत्पदाब्जे निधाय तस्मिन् Show me both परिकरैरत्रिकन्याधिनाता नाहं बोद्धुं शिव तव पदं न क्रियायोगचर्याः कर्तुं शक्नोम्य नितरगतिः केवलं त्वा प्रपद्ये सकल यश्च साकं पुराणैः कं त्वामाद्यं गुरुमहमसावात्मबुद्धिप्रकाशम् संसारार्थः शरणमधुना पार्वतीशं प्रपद्य पद दे शमयति रुजं स्वात्मबोधोषधे ब्रह्मविद्या गुरुं त्वा स्वेप्सितप्रार्थनाय स्वामिनग्रे चिरमवसरस्तोषयद्भिः प्रतीक्षः द्रागेव त्वं यदिह शरणं प्रार्थये कीटकल्पः तद्विश्वाधीश्वर तव कृपा एव विश्वस्य दीने अखिलं दुष्करं नातपश्यन् पापासक्तं हृदयमपि चा पारयन् सन्निरो मस्मिन् प्रपञ्चे मत्वा जन्म प्रचय जलधे बिभ्यतः यत्ते भजस्वप्रपन्नम् गो देवानां प्रथममशुभद्रावको भक्तिभाजा यमानम् महर्षिः दृष्ट्या पश्यत् सकलजगति सृष्टिसामर्थ्यदात्र्या सम् ग्रन्थि प्रविलय कृते विद्यया यो dwe अन्ततद्रोहशाली धिकृपा सागरः पूर्णशक्तिः कस्मादेन न गणयसि मा पदब्धौ निमग्नम् एकं पापात्मकमपि रुजा सर्वतो जन्तुं यद्युद्धरसि शिवकस्तावतात् 字幕志愿者杨茜茜 अग्न रेखा enu hey, no, ka त्यजामिपनं भसितमा वसतः श्मशानम् नि ते सततमाभरणानि सन्तु निष्ठोतुमीश सकलश्रुतिपारसिद्धम् ऐश्व लममीषा बल्वजाना विचिन्त्य कथमपि शिवका शणीयं त्रिभुवने सुखं वा दुःखं वा मम भवतु भावि भगवन् समुन्मीलत्पातोगुहर सौभाग्यमुषिते पदद्वन्द्वे चेतः परिचयमुपेयान् मम सदा paradham magnam samudramahatyamupa daddho sarvatmanah कृपानिधेमा रक्षकृपानिधे मा इति रक्षकृपानिधे मा कृपानिधे मा शुभमङ्गल